ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं फोर् ब्रह्माण्डवर्तम् ऋषय ऊचुः श्रुतं सुमहदाख्यानं भवदा परिकीर्तितं प्रजानामनुभिः सार्धं देवानां ऋषिभिः सह पितृगन्धर्वभूतानां पिशाचोरकरक्षसाम् दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् अत्यद्भुतानि कर्माणि विविधा धर्मनिश्चयाः विचित्राश्च कथायोगा जन्मच चाग्र्यमनुत्तमम् तत्कथ्यमानमस्माकं भवदा मनःकर्णसुखं सौदे प्रीणात्यमृतसन्निभम् एवमाराध्यदे सूदं सत्कृत्य च महर्षयः पप्रच्छुः सत्रिणः सर्वे पुनःसर्गप्रवर्तनं कथं सुतमःप्राज्ञ पुनःसर्गः प्रपत्स्यते बन्धेषु सम्प्रलीनेषु गुणसाम्येत्तमोमये विकारेष्वविसृष्टेष् ह्यव्यक्ते चात्मनि स्थिते अप्रवृत्ते ब्रह्मणा दुसहसायोज्यगैस्तदा कथं प्रपश्यदे सर्गस्तन्न प्रब्रूहि पृच्छता एवमुक्तस्ततः सूतस्तदा सौ व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्तनम् अत्र वो वर्तयिष्यामि यथा सर्गप्रपत्स्यते पूर्ववत्सतु विज्ञेयः समासात्तन्निबोधत दृष्ठे नैवानुमेयं च यस्माद्वाजो निवर्तन्ते त्वप्राप्य मनसा सह अव्यक्तवत्परोक्षत्वाद्गहनं तद्दुरासदं विकारैः प्रतिसंसृष्टो गुणः वर्तते प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति धर्मा धर्मधर्मौ प्रलीये देह्यव्यक्ते प्राणिनां सदा सत्त्वमात्रात्मको धर्मो गुणे सत्त्वे प्रतिष्ठितः तमो मात्रात्मको धर्मो गुणे तमसि तिष्ठति अविभागेन तावेतौ ता। गुणसाम्येष्ठिदावुभौ सर्वं कार्यं बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते बुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान् गुणान् एवं तानभिमानेन प्रपत्स्यति पुनस्तदा यदा प्रवर्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः भोज्य भोक्तृत्वसम्बन्धाः प्रपत्स्यन्ते च तावुभौ तस्मादक्षरमव्यक्तम् साम्ये स्थित्वा गुणात्मकम् क्षेत्रज्ञाधिष्ठितं तत्र वैपम्यम् भजते तु तद् ततः प्रपत्स्यदे क्षेत्रक्षेत्रज्ञयोर्द्वयोः क्षेत्रज्ञाधिष्ठितं सत्त्वम् विकारम् जनयिष्यति महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकं क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रवर्त्स्यतः आदिदेवप्रधानस्यानुग्रहाय प्रजक्षते अनाद्यौ वरमुत्पादौ उभौ सूक्ष्मौ तुतौ स्मृतौ अनादिसं योगयुतौ सर्वं क्षेत्रज्ञमेव च अबुद्धिपूर्वकं युक्तमाशक्तौ तु वरौ तदा अप्रत्ययमोकं च स्थिदा उदगमत्स्य तौ पूनम प्रपश्यते अवर्तन्दे रजसमो प्रवृत्ति रजसापन महत्वभूताशेषताच विशेषताञ्चेन्द्रियतां च यादिगुणावसानौषधिभिर्मनुष्यः सत्याभिध्यायिनस्तस्यध्यायिनः सन्निमित्तकं रजसत्त्वतमो व्यक्ताविधर्माणः परस्परम् अद्यन्तं वै प्रवस्यन्ते क्षेत्रमज्ञां वा सर्वशः संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः सर्वे सत्त्वाः प्रपद्यन्ते ह्यव्यक्तात् पूर्वमेव च प्राक्सृतौ ये कार्याणि प्रतिपत्स्यन्ते उत्पत्स्यन्ते पुनः पुनः गुणमात्रात्मकावेव धर्माधर्मौ परस्परम् आरप्स्यन्ते हि चान्योन्यं वरेणानुग्रहेण वा सर्वस्तुल्यप्रसृष्ट्यर्थसर्गादव्यादिविक्रियां गुणास्तं प्रतिधीयन्ते तस्मात् तत्तस्य रोचते गुणास्ते यानि कर्माणि प्राक् सृष्ट्यां प्रतिपेदिरे तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः हिंस्रा हिंस्रे मृदुकुरे धर्मा धर्मा वृता नृते तद्भाविता प्रपद्यन्ते तस्मात्तस्य रोचते महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु भूदानां संप्रवर्तते। विप्रयोग गुणेभ्य संप्रवर्त वोमयाख्यान सर्ग सामसदेव वक्ष ब्रह्मण सुद्यक्ता सदसदात्मका प्रधानपुरुषाभ्या जायते च महेश्वरः स पुनः सम्भावयिता जायते ब्रह्मसंज्ञ सृजते स पुनर्लोकानभिमानगुणात्मकान् अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः भूदान्ये भूतान्येवेन्द्रियाणि च भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्तते विस्तरावयवस्तेषां यथा प्रत्नं यथा श्रुतं वो यथा पूर्वं तथैवाप्युपधार्यतां यदच्छ्रुत्वा तदानीं लोकोत्पत्तिं सुस्थितिं चाप्ययं च चा तस्मिन् सत्रेव भृतं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति यथा यूयं विधिना देवतादीनिष्ट्वा चैवावभृतं प्राप्य शुद्धाः त्यत्वा देहनायुषों ते कृतार्था पुण्यं लोकं प्राप्य दध्वमेवं ये ते नैमिषेया वै दृष्ट्वा स्पृष्ट्वा च वै तदा जग्मुावभृतस्नादा स्वर्गं सर्वेदु दुसत्रिनः विप्रास्तथा यूयमपि युष्ठा बहुविधर्मखः आयुषोन्ते तदस्वर्गं कन्धारस्तद्विजोत्तमाः प्रक्रिया प्रथमः पादकथायास्तु परिग्रहः अनुषङ्ग उपोद्धाद उपसंहार एव येवमेव चतुःपादं पुराणं लोकसम्मदम् उवाच भगवान् साक्षाद्वायुलोकहिते रतः नैमिषे सत्रमासाद्य मुनिभ्यो मुनिसत्तम तत्प्रसादं च संसिद्धं भुदोत्पत्तिलयान्वितम् प्राधान्यमिमां सृष्टिं तथैवेश्वरकारितां सम्यग् विदित्वा मेधावी न मोहमधिगच्छति इदं यो ब्राह्मणो विद्वानिधिहासं पुरातनं शृणुया श्रावयेद्वापि तथा ध्यापयतेऽपि च स्थानेषु स महेन्द्रस्य मोददे शाश्वतीस्समाः ब्रह्मसायुज्य गो भूत्वा ब्रह्मणा सह मोददे तेषां कीर्तिम कीर्तिमदां कीर्तिं प्रजेशानां महात्मनां प्रथयन् पृथिवीशानां ब्रह्मभूयाय गच्छति धन्यं यशस्य मायुष्यं पुण्यं वेदैश्च संमिदं कृष्णद्वैपायनेनोक्तं पुराणब्रह्मवादिनां मन्वन्तरेश्वराणां च यकीर्तिं प्रथयेदिमाम् देवतानां ऋषीणां च भूरिद्रविमतेजसां स सर्वैर्मुच्यते पापैपुण्यं च महदाप्नुयात् यश्चेदं श्रावयेद्विद्वान् सदा पर्वणि पर्वणि धूतपाप्माजितः स्वर्गो ब्रह्म भूयाय यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः अक्षेयं सर्वकामीयं पिदृंस्तच्छोपतिष्ठते यस्मात्पुराह्यणन्दिदं पुराणं तेन चोच्यते निरुक्तमस्य यो सर्वपापैः प्रमुच्यते तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते इतिहासमिमं श्रुत्वा धर्माय विदद्धे मतिं यावन्त्यस्य शरीरेषु रोमकूपानि सर्वसः तावत्कोटिसहस्राणि वर्षाणि दिवि ब्रह्मसायुज्यगो भूत्वा दैवतैः दै सह सर्वपापहरं पुण्यं पवित्रं च यशस्वि ब्रह्मा ददौ शास्त्रमिदं पुराणं माधरिष्वने तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः बृहस्पतिस्तु सवित्रे तदनन्तरं सविदा मृत्यवेप्राह मृत्युश्चेन्द्राय वै पुनः इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय सारस्वतस्त्रिधाम्ने धत्रिधामा शरद्वदे शरद्वांस्तु त्रिविष्ठाय सोऽन्तरिक्षाय दत्तवान् चर्षिणे चान्तरिक्षो वै सोभित्रय्यारुणाय च त्रय्यारुणाद्धनञ्जयस वै प्रादात् कृदञ्जये कृदञ्जया तृणञ्जयो भरद्वाजाय सोप्यध गौतमाय भरद्वाजसोऽपि नैर्यधरे पुनः निर्यन्धरस्तु प्रोवाच तदा वाजश्रवाय वै स सोमशुष्माय स चादातृणबिन्दवे तृणबिन्दस्तु दक्षाय दक्षप्रोवाच शक्तये शक्ते पराशरश्चापि गर्भस्तश्रुतवानिदं पराशराजादुकर्ण्यस्तस्माद्वैपायनः प्रभुः द्वैपायनात् पुनश्चापि मया प्राप्तं द्विजोत्तम मया चैदः पुनः प्रोक्तम् पुत्रायामिद बुधये इत्येव वाक्यं ब्रह्मादिगुरुणां समुदादृतम् नमस्कार्याश्च गुरवः प्रयत्नेन धन्यं यशस्य पुण्यं सर्वार्थसाधकम् आपक्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा न ना शुचौ नापि पापाय नाप्यसंवत्सरोषिते नाश्रद्धधाने विदुषे नापुत्राय पुत्राय कथञ्चन नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् अव्यक्तं वैयस्य योनिं वदन्तिव्यक्तं देहं कालमेधं गतिं च वन्निर्वक्त्रं चन्द्रसूर्यं च नेत्रे दिश्रोत्रे ख्राणमाहुश्च वायुं वाजोवेदा अन्तरिक्षं शरीरं क्षितिः पादास्तारकारो मकूपाः सर्वा निद्यौर्मस्तकानि त्वथो वैविध्याश्चैवोपनिषद्यस्य पुच्छं तं देवदेवं जननं जनानां यज्ञात्मकं सत्यलोकप्रतिष्ठं वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयदो नमस्ये यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते द्वादशसाहस्र्यां संहितायाम् उत्तरभागे चतुर्थम् उपसंहारपादे ब्रह्मांडावर्तम। नाम चतुर्थोऽध्यायः ओ